शिवगीता षोडशोऽध्यायः श्रीराम उवाच भगवन्मोक्षमार्गो यः त्वया सम्यक् उदाहृतः तत्र अधिकारिणम् ब्रूहि तत्र मे संशयो महान् श्रीभगवानुवाच ब्रह्मचत्रविशूद्राः प्रियश्च अत्र अधिकारिणः ब्रह्मचारी गृहस्थो वा अनुपनीतो अथवा द्विजः वनस्थो वा अवनस्थो वा यतिः पाशुपतव्रती बहुना अत्र किमुक्तेन यस्य भक्तिः शिवार्चने त एव अत्र अधिकारी स्यात् नान्यच्चित्तः कथञ्चन जटो अन्धो बधिरो मूको निःशौचः कर्मवर्जितः अज्ञोपहासका भक्ता ऊतिरुद्राक्षधारिणः लिङ्गिनो यश्च वा द्वेष्टि तेनैवात्र अधिकारिणः यो माम् गुरुम् पाशुपतम् व्रतम् द्वेष्टिधरादिप विष्णुं वा न अनेक जन्मकोटिशतैरपि अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः शिवभक्तिविहीनश्च संसारान्नैव मुच्यते आसक्ताफलरागेण ये अवैदिक तु अवैदिककर्मणि दृष्टमात्रफलास्ते तु न मुक्ता अधिकारिणः अविमुक्ते द्वारकायाम् श्रीशैले पुण्डरीकके देहान्ते तारकं ब्रह्म लभते मत् अनुग्रहात् यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् विद्यातपश्च कीर्तिश्च तत्तीर्थफलमश्नुते विप्रस्य अनुपनीतस्य विधिरेवमुदाहृतः नाभिव्याहारयेत् ब्रह्म तदादिनेनादृते स शूद्रेण समः तावद् यावद्वेदान्न जायते नामसङ्कीर्तने ज्ञाने सर्व एव अधिकारिणः संसारात् जन्तुः शिव तादात्म्यभावना तथा दानम् तपो वेद अध्ययनम् च अन्यकर्मवा वा सहस्रांशम् तु नार्हन्ति सर्वदा ध्यानकर्मणः जातिम् आश्रममङ्गानि देशम् कालमथापि आसनादीनि कर्माणि ज्ञानम् न अपेक्षते क्वचित् गच्छन् तिष्टन् जपन् वापि चयानो वा अन्यकर्मणि पातकेनापि वा युक्तो विमुच्यते न इह अभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमपि अस्य धर्मस्य रायते महतो भया भयेशोके श्रुते वा मम नामयः याजेनापि स्मरेद्यस्तु स याति परमां गतिम् महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् पञ्चाक्षरीं वा उच्चरति स मुक्तो संशयः विश्वं शिवमयं यस्तु पश्चित् आत्मानम् त्मना तस्य क्षेत्रेषु तीर्थेषु किम् कार्यम् वा अन्यकर्मसु सर्वेण सर्वदा कार्यम् पूतिरुद्राक्षधारणम् युक्तेन अतापि अयुक्तेन शिवभक्तिम् अबीप्सता नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् महापापैरपिस्पृष्टो स्पृष्टो मुच्यते नात्र संशयः अन्यानि सैव कर्माणि करोतु न करोतु वा शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः अन्तकाले तु रुद्राक्षान् विभूतिम् महापाप उपपाप पि स्पृष्टो न रादमः सर्वथा न उपसर्पन्ति तम् जनम् यमकिङ्कराः बिल्वमूलम् मृदा यस्तु शरीरमुपलिम्पति अन्तकाले अन्तकजनैः सद्दूरीक्रियते नरः श्रीराम उवाच भगवन्पूजितः कुत्र कुत्र वा त्वम् प्रसीदसि तद्ब्रूहि मम जिज्ञासा वर्तते महती विभो श्रीभगवानुवाच मृदा वा गोमयेनापि भस्मना चन्दनेन वा रिकताभिः दारुणा वा पाषाणेनापि निर्मिता लोहेन वा कांस्यकर्परपित्तळैः ताम्ररौप्यसुवर्णैर्वा रत्नैर्नानाविधैरपि अथवा पारदेनैव कर्पूरेण अथवा कृता प्रतिमा शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् दारुकांस्य लोभैश्च पाषाणेनापि निर्मिता गृहिणा प्रतिमा कार्या शिवम् शश्वत् अबीप्सता आयुः श्रियम् कुलम् धर्मम् पुत्रान् आप्नोति तैः क्रमात् हिल्वृक्षे तत्फले वा व्योमाम् पूजयते नरः परां श्रियम् इह मम लोके महीयते भिल्वृक्षम् समाश्रित्य यो मन्त्रान् विधिना जपेत् एकेन दिवसेनैव तत्पुरश्चरणम् भवेत् यस्तु भिल्वने नित्यम् कुटीम् कृत्वा वसेन्नरः सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण केवलम् पर्वताग्रे नदीतीरे बिल्वमूले शिवालये अग्निहोत्रे केशवस्य सन्निधौ वा जपेत् यः नैवास्य विघ्नम् कुर्वन्ति दानवा यक्षराक्षसाः तं न स्पृशन्ति पापानि शिवसायुज्यम् ऋच्छति तण्डिले जले वह्नौ वायु आकाश एव वा गिरौ स्वात्मनि वा यो माम् पूजयेत्प्रयतो नरः सकृत्स्नं फलमाप्नोति लवमात्रेण राघव आत्मपूजा समानास्ति पूजा, पूजा रघुकुलोद्भव मत्सायुज्यमवाप्नोति चण्डालोऽपि आत्मपूजया सर्वान् कामान् अवाप्नोति मनुष्यः कम्बलासने कृष्णाजिने भवेन्मुक्तिः मोक्षश्रीव्याग्रचर्मणि कुशासने भवे ज्ञानम् आरोग्यम् आरोग्यं पत्रनिर्मिते पाषाणे दुःखमाप्नोति काष्ठे नानाविधान् गदान् वस्त्रेण श्रियमाप्नोति भूमो मन्त्रो न सिद्ध्यति प्राङ्मुको उदङ्मुखोऽवापि जपं पूजां समाचरेत् अक्षमालाविधिं वक्ष्ये अवहितो नृप साम्राज्यं स्पाटिके स्यात्तु पुत्रजीवे परां श्रियम् आत्मज्ञानम् कुशग्रन्थौ रुद्राक्षः सर्वकामदः प्रवालैश्च कृता माला सर्वलोकवशप्रदा मोक्षप्रदा च माला स्यात् आमलक्याः मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी माणिक्यरचिता माला त्रैलोक्यस्य वशङ्करी नीलैः मरकतैर्वापि कृता शत्रूभयप्रदा सुवर्णरचिता माला दद्याद्वै महतीम् स्वीयम् तथा रौप्यमयी माला कन्याम् यच्छति कामिताम् उक्तानाम् सर्वकामानाम् दायिनी पारदैः कृता अष्टोत्तरशता शतसङ्ख्या उत्तमा माला पञ्चाशन् मध्यमा मता चतुष्पञ्चशती यद्वा अधमा सप्तविंशतिः अधमा पञ्चविंशत्या यदि स्यात् शतनिर्मिता पञ्चाशत् अक्षराण्यत्र अणुलोमप्रतिलोमतः इत्येवं स्थापयेत् स्पष्टम् न कस्मैचित्प्रदर्शयेत् वर्णैः विन्यस्तया यस्तु क्रियते मालया जपः एकवारेण तस्यैव पुरश्चर्या कृता भवेत् सव्यपार्ष्णिगुदे स्थाप्य दक्षिणं च ध्वजोपरि योनिमुद्रा बन्द एष भवेदासनम् उत्तमम् योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः यम कञ्चिदपि वा मन्त्रम् तस्य सर्वसिद्धयः चिन्ना रुद्धाः स्तम्भिताश्च मिलिता गोचितास्तता सुप्ता मत्ता हीनवीर्या दग्धास्तारिपक्षकाः बाला यौवनमत्ताश्च वृद्धा मन्त्राश्च ये मताः योनिमुद्रासने स्थित्वा मन्त्राण्येवम्विधान् जपेत् तस्य सिद्ध्यन्ति ते मन्त्रा नान्यस्य तु कथञ्चन ब्राह्मम् मुहूर्तम् आरभ्य आमद्यान्नम् जपेन्मनुम् अत ऊर्ध्वम् कृते जाप्ये विनाशाय भवेद्ध्रुवम् पुरश्चर्याविधौ एवम् सर्वकाम्यफलेष्वपि नित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः सर्वदैव जपः न दोषः तत्र कश्चन यस्तु रुद्रम् जपेन्नित्यम् जायमानो ममाकृतिम् षडक्षरम् वा प्रणवम् निष्कामो विजितेन्द्रियः तथा अतर्वशिरो मन्त्रम् कैवल्यम् वा रघूत्तम स तेनैव च देहेन शिवः सञ्जायते स्वयम् अधीते शिवगीताम्यो, यो नित्यमेताम् जितेन्द्रियः शृणुयाद्वा स मुक्तः स्यात् संसारात् नात्र संशयः एवमुक्त्वा महादेवः तत्रैवन्तरधीयत नामहा कृतार्थम् आत्मानम् अमन्यततैव सः एवं मया समासेन शिवगीता समीरिता एताम् यः प्रजपेन्नित्यम् शृणुयाद्वा समाहितः एकाग्रचित्तो यो मद्यः तस्य मुक्तिः करे स्थिता अतः शृणुध्वम् मुनियो नित्यमेताम् समाहिताः अनायासेन वो मुक्तिः भवितानात्र संशयः कायक्लेशो मनक्षोभो दनहानिर्नचात्मनः पीडास्ति श्रवणादेव यस्मात्कैवल्यमाप्या शिवगीतामथो नित्यम् कृणुद्वम् वृषि सत्तमाः ऋषयऊचुः अद्य प्रभृतिनः सूत त्वाम् आचार्यः पिता गुरुः अविद्यायाः परम्पारम् यस्मात्तारयितासिनः उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता तस्मात् सूतात्मज त्वत्तः सत्यम् नो गुरुः यासौ इत्युक्त्वा प्रययुः सर्वे सायं सायम् सन्ध्यामुपासितुम् सुवन्तः सूतपुत्रम् ते सन्तुष्टा गोमतीतटम् इति श्रीशिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघवसंवादे गीताधिकारीनिरूपणं नाम षोडशोऽध्याय इति श्रीमशिवगीता समाप्ताय ॐ नमः शिवाय ॐ नमः शिवाय ॐ नम शिवाय ॐ नम शिय ॐ नम शिय ॐ नम शिय ं नम शिय ॐ नम